मुद्गलपुराणं खण्डम् एय्ट् धूम्रवर्णचरितम् अध्यायं तर्टीन् बाणासुरवरप्रधानम् श्रीगणेशाय नमः श्री शिव उवाच बले पुत्रो भवद्बाणो दैत्यः परमधार्मिकः शिवभक्तः सदा साधु गुणयुक्तः प्रदापवान् बाल्यात्प्रारभ्य शम्भुं सो भजद्भावपरायणः नान्यं देवं प्रजानादि स्वधर्मपालको बभौ शुक्रः पञ्चाक्षरं मन्त्रं ददौ तस्मै महात्मने सविधिं शङ्करस्यैव दिदेश्य तपसे मतिं सो तपस्तप उग्रमां ध्यात्वा मद्भक्तिभाविदः प्रकतेषु च वर्षेषु सहस्रे भवम् मुद्गल उवाच जगामवरदो बाणं शङ्करकरुणानिधिः सतं तुष्टावौद्रैश्च स्तोत्रायः पूज्य यथाविधि प्रसन्नो भगवान्प्राह वरान् वृणुमहामदे दास्यामि तपसा तुष्टो भक्र्या चैवासुराधिप बाणासुर उवाच वरदोऽसि महादेव भक्तिदेहि त्वयि स्थिरां शैवं मां कुरुदेवेश नान्यदेवपरायणं बाहूनां तु सहस्रं मे देहि सामर्थ्यमद्भुतं न मत्समःप्रसङ्ग्रामे सम्भवेत् सचराचरे तथेदितं महादेवो जगादभक्तमुत्तमं ययौ स्वनगरं शम्भुपार्वत्या गणसंयुतः ततो बाणासुरोदैत्यो जिज्ञे वै विष्णुमुख्यकान् सुरान् राज्यं चकारासौ धर्मनिष्ठस्वभावदः स्वर्गेषु देवपान् स्थाप्य पादालेषु महासुरान् नागान्नरान् पृथिव्यांस राज्यं चकार धर्मदः वर्णाश्रमयुतान् सर्वान् पालयामास दैत्यभः नित्यं कैलासगो भूत्वा पूजयच्छङ्करं प्रभुं तस्य धर्मप्रभावेण भक्र्या तुष्टः सदाशिवः वासार्थमाय यौ शम्भुर्नगरे तस्य पार्श्वदैः ततः स शाम्भवे दैत्यो विचारमकरोत् हृदि पञ्चायतनरूपेण शङ्करः एकनिष्ठतया शम्भुं भजिष्यामि विशेषदः नान्यं जानामि देवे शं कदा पूजिते शङ्करे पूजितं सचराचरं मया वेदविवादेषु तथा सङ्कथितं बुधैः एकनिष्ठासमाभक्तिर्न भूदा न भविष्यति अदोऽहमेकनिष्ठादो भजिष्यामि सदाशिवं तत्रादौ गणराज्यश्च पूजनीयः प्रयत्नदः कथितं सर्वशास्त्रेषु किं करोमि गजाननम् ब्राह्मणैर्गणपत्याैर्यष्टै कृतं द्विदमादराद द्वितीये पूजिदे देवे एकनिष्ठा कथं भवेद एवं विचार्य दैत्येशो त्यक्त्वा गणपतिं परं एकनिष्ठतया शम्भुम् पूजयन्नित्यमादराद एवं वर्षे गदे पूर्णे शङ्करम् पूज्यभकृदः शोणिते नगरे संस्थम् सननर्त पुरोऽसुरः ततः प्रसन्नतां व्यादशिवकल्याणदायकः जनाद तं वरं ब्रूहि महापाशुपदासुर शिवस्य वचनं श्रुत्वा हर्षितो बलिनन्दनः जगाद तं महादेवं प्रणिपत्यादिभक्तिदः बाणासुर उवाच योद्धारं देहि देवेश सदृशं बलसंयुदम् सहस्रभुजवीर्यस्य सहनेधि पराक्रमं तच्छ्रुत्वा कुपिदशम्भुर्दौ महात्मने राज्यं भ्रष्टं भुजानां ते चेदश्चैव भविष्यति वासुदेवेन सङ्ग्रामं करिष्यस्य सुराधम मत्तो वृणोसि किं दुष्ट भविष्यसि पराजितः तच्छ्रुत्वा शोकसंयुक्तो बाणस्थं प्रणनामः पुनस्व स्वगृहमागत्य काव्यं पूज्य जगादसः शिवस्तं त्यज्यकैलासम् ययौ क्रोधसमन्विदः उन्मत्तम् धारयामास मानसे चासुरेश्वरम् काव्यस्तम् सान्त्वयामासृत्वा वृत्तान्तमञ्जसा बोधयामास दैत्येशं योगीशो द्विजसत्तमाः शुक्र उवाच गणेशं त्यज दैत्येन्द्र शङ्करं भजसे परं वेदे विरुद्धं तत्कर्म करोषि त्वं न संशयः ज्येष्ठराज इति प्रोक्तं वेदैः पश्य महामदे सर्वपूज्यादिपूज्यत्वं प्रकाशकारकं शुभम् यथा सन्ध्यादिकं कर्मावश्यं तद्वद्गजाननः एकनिष्ठापरैः पूज्य सर्वादौ ज्येष्ठभावदः त्यक्त्वा गणेश्वरं शम्भुं भजसे नित्यमादराद कुपितो गणनाधस्तु बुद्धिभेदं चपारः सिद्धि बुद्धि पदि सिद्धिबुद्धिपदिस् साक्षाद्गणेशो ब्रह्मनायकः तं त्यक्त्वा शाम्भवीं सिद्धिं लभसे कथमप्यहो शिवस्य हृदये सोऽपि तव तिष्ठति साम्प्रतं यदिच्छया शिवाद्याश्च वरुदन्ते त्वमपि ध्रुवम् तस्त्वं शिवहीनश्च कृतस्तेन महात्मना संशप्तः शङ्करेणैव शैवः परमभाविकः गच्छ तं शरणं देवं गणेशं ब्रह्मनायकं तदा विघ्नविहीनस्त्वं भविष्यसि न संशयः गणाः समूहरूपाश्च समूहा ब्रह्मवाचकाः बाह्यान्तरैकभावेन समूहो जायदेह्यतः तथाऽयम् गणराजस्य गणयेकशिव स्मृतः समूहाख्यश्च तपसाम् विचारय महामदे अथवा शिव संज्ञोऽयं सहजानां परागतिः गणरूपश्चेश्वराणां समूहे सहजः शिवः एवं विष्णवादयः सर्वे गणास्तत्स्यप्रकीर्तिताः पश्य वेदोपनिषदि कथितं तत्त्वधर्वणि येवमुक्त्वा महादैत्यं काव्यस्वगृहमायययौ बाणःखे दशमायुक्तो विचारमकरोत् हृदि तदस्ते न गणेशस्य महोज्ञादं चतुर्थीं प्राप्य दैत्येश्यस्तं पुपूज गजाननं ध्याननिष्ठो गणेशस्य जापमन्त्रमुत्तमं गणानां त्वेदि बाणः चकारह चकारः तुष्टावस कृताञ्जलिः ततः प्रसन्नतां यादो गणेशो भक्तवत्सलः उपवासकरं बाणमाययौ द्विरदाननः वरदोह्येकवर्षेण मूषकोपरि संस्थितः आगदं गणराजं स दृष्ट्वा हर्षसमन्विदः उद्धाय प्रणम्यादौ पुपूज भक्त्रिलोलुपः पुनः प्रणम्य विघ्नेश्यं तुष्टावस कृताञ्जलिः बाणः परमधर्मात्मा भक्तिनम्रात्मकन्धरं बाणासुर उवाच विघ्नेशाय परेशाय भक्तविघ्नविदारिणे अभक्त विघ्नकर्त्रे ते विघ्नविघ्नाय वै नमः विनायकाय देवेश्च दैत्येश्च नायकाय दे, निरङ्कुशाय सातत्यं गणेशाय नमो नमः ज्येष्ठराजाय ज्येष्ठाय ज्येष्ठपूज्याय जेष्टा ते नमः सर्वपूज्यादिपूज्याय परे शेष नमो नमः लम्बोदराय सर्वाय मात्रे पित्रे तदात्मने आदिमध्यान्दहीनाय हेरम्बाय नमो नमः शूर्पकर्णाय शूराय मोहान्धकविदारिणे ब्रह्मेशाय सुशान्ताय शान्दिदात्रे नमो नमः एकगन्धाय देवाय स्वानन्दे वासकारिणे अमेयाय प्रदर्क्याय मायिने ते नमो नमः माया मायिकरूपाय माया मायिकवर्जित अनाधानां प्रणाथाय नाथनाधाय ते नमः सिद्धिबुद्धिपदे तुभ्यं सदा योगपरायण योगीन्द्राणां सुयोगाय कुलदेवाय ते नमः त्वदधिनमिदं सर्वं बुद्धिचालकरूपिणे सिद्ध्याः सम्मोहितं नाथ सिद्धिदात्रे नमो नमः शिवादयः समर्थाश्च त्वदीयकृपयाभवन् अहङ्कारेण युक्ताश्चेद् भ्रष्टा स्वस्वाधिकारदः मया त्यज्ञानभावेन त्वं त्यक्तः शिवकाम्यया मां शप्त्वा त्यज्य स शम्भुर्गदक्रोधपरायणः अदो मां रक्षविघ्नेश्यत्वन्नाथं नाथवर्जितम् अपराधान्महोग्रान्मे क्षान्त्वा पाहि निरन्तरम् एवं स्तुत्वा गणेशानं प्रणनाम रुरोद च बाणः परमदुःखार्थः पादं गृह्य महात्मनः तमुद्धाप्य गणाधीश्यस्तं जगादमहासुरं स्वमायामोहितं दीनं स्वस्वैव शरणार्थिनम् श्रीगणेश उवाच त्वया कृतमिदं स्तोत्रं व्यधिक्रमविदाहकं भविष्यदि महादैत्यसर्वसिद्धिप्रदायकम् अनेन स्तु वदे दैत्यप्रसन्नोऽहं ददामि वै भुक्तिं मुक्तिं सदा सौख्यं त्वयात्यक्रोहमत्यन्तक्रोधयुक्तश्च नित्यदा शिवहीनं प्रकृत्वां ते नारकम् त्वां करोमि वै किं करोम्यधुना दैत्यशुक्रशिष्यं महासुरं शरणागदमेवं मे मत्पादप्रवणं परम् शिव शापोनमिध्यादे भविष्यति कदाचन तथापि शृणुमे वाक्यं तुभ्यं सौख्यप्रदायकं वासुदेवं समायुध्य भुजच्छेदो भविष्यदि भ्रष्टराज्यः राज्यपुनसद्यो राज्ययुकुदो राज्ययुक्तो भविष्यसि यवमुक्त्वा महादैत्यं गणेशो विररामः महा तमुवाच महादैत्यप्रणम्य गणनायकं बाण उवाच तव विस्मरणं नाथ न ना भवेन्मे तथा कुरु त्वया युक्तं शिवं नित्यं भजिष्यामि सुभकृदः गणेश्यं ज्ञानमाध्यमे देहि विघ्नेशशाश्वतं नान्यदिच्छामि सर्वे षत्वत्पादप्रवणोऽधुना श्रीगणेश उवाच गाणेशज्ञानसंयुक्तो भविष्यसि महासुर अनेन जडदेहेन गणस्यैवो भविष्यसि महाकालेदीनाम्ना त्वं विख्यातः सर्वमण्डले नष्टे शिवपदे दैत्यस्वानन्दे आगमिष्यसि एवमुक्त्वा गणाधीशोऽन्तर्दधे मुनिसप्तमाः भाणो हर्षसमायुक्तो गणेशमभजत्तदः ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषद्दि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते बाणासुरवरप्रदानं नाम त्रयोदशोऽध्यायः ॐ